अथ सप्तविंशत्यधिकशततमः सर्गः श्रुत्वा तु परमानन्दम् भरतः सत्यविक्रमः हृष्टमाज्ञापयामास शत्रुघ्नम् परवीरः दैवतानि च सर्वाणि चैत्यानि नगरस्य च सुगन्धमाल्यैर्वादित्रैरर्चम् तु शुचयो नराः सूतास्तुति पुराणज्ञाः सर्वदित्रकुशला गणिकाशदारास्तथा सैनिया ग्रामच सजनिया मुख्या अभी राम से द्रष्टुम शशिभ मुख से वच श्रुवा शत्रुघ् परीर विस्ीरनेकस्रीश्चोदीत निम्ना विषमा सामने चाना चा नीग्रा परं सिं पृथिवीत्स्रा हिमशीतेन वारिण तथ्यवकिेलाज पुष्प स मुझ्रित पतास्तु रथ्या शोभयम् तु च वेश्वाणि सूर्यस्योदयनम् प्रति स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः राजमार्गमसम्वाधम् किरम् तु शतशो नराः ततस्तच्छासनम् श्रुत्वा शत्रुघ्नस्य मुदान्विताः धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः अशोको मंत्र सुमंत्रा निर्यु मनाक सहस्रैच सध्वज सु विभूषितपरे हेम कक्षा सगजा करेणु निर्युस्तुर गाक्रांथस् सुसुमारथ शक्ष्टिपाश हता सधा पताकिना पदातीनाम् सहस्रैश्च वीराः परिवृताययुः ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः कौसल्याम् प्रमुखे कृत्वा सुमित्राम् चापि निर्ययुः कैकेय्या सहिताः सर्वानन्दिग्राममुपागमन् विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः स नैगमैः माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः आर्यपादौ गृहीत्वा तु शिरसाधर्मकोविदः पाण्डुरम् छत्रमादाय शुक्लमाल्योपशोभितम् शुक्ले च मालव्यजने राजार्हे हेमभूषिते उपवासकृशोदीनश्चीरकृष्णाजिनाम्बरः भ्रातुरागमनम् श्रुत्वा तत्पूर्वम् हर्षमागतः प्रत्युद्ययौ यदा रामम् महात्मा सचिवैः अश्वानाम् खुरशब्दैश्च रथने निःस्वनेन च शङ्खदुन्दुभिनादेन सञ्चचालेव मेदिनी गजानाम् बृंहितैश्चापि शङ्खदुन्दुभि निःस्वनैः समीक्ष्य भरतो वाक्यमुवाचपवनात्मजम् कच्चिन्न खलु सेव्यते चलचित्तता न हि पश्यामि काकुत्स्थम् रामवार्यम् परम् तपम् कश्चिन्न चानुदृश्यन्ते अथैव मुक्ते वचने हनूमानिदमब्रवीत् अर्थ्यम् विज्ञापयन्नेव भरतम् सत्यविक्रमम् सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् भरद्वाजप्रसादेन मत्तभ्रमरणादितान् तस्य चैव वरो दत्तो वासवेन परम् तप ससैन्यस्य तदातिथ्यम् कृतम् सर्वगुणान्वितम् निःस्वनः श्रूयते वनौकसा मन्ये वा तरति गोमतीम् रजो वर्षम् समुद्भूतम् पश्य सालवनम् प्रति मन्ये सालवनम् रम्यम् लोलयम् तिप्लवङ्गमाः तदेतद्दृश्यते दूराद्विमानम् चन्द्रसन्निधम् विमानं पुष्पकं दिव्यं मनसा ब्रह्म निर्मितम् रावणम् हत्वालब्धं महात्मना तरुणादित्यसङ्काशम् विमानम् रामवाहनम् धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् एतस्मिन् भ्रातरौ वीरौ वैदेह्यासह राघवौ सुग्रीवश्च महातेज राक्षसश्च विभीषणः ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् स्त्रीबालयुव वृद्धानाम् रामोऽयमिति कीर्तिते रथकुञ्जरबाजिभ्यस्तेवतीर्यमहीम् गताः ददृशस्तम् विमानस्थम् नराः सोममिवाम्बरे प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत् मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः रराजपृथुदीर्घाक्षो वज्रपाणिरिवामरः ततो विमानाग्रगतम् भरतो भ्रातरम् तदा भवन्दे प्रणतो रामम् मेरुस्थमिव भास्करम् ततो रामाभ्यनुज्ञातम् तद्विमानमनुत्तमम् तत हंसयुक्तम् महावेगम् निपपातमहीतलम् आरोपितो विमानम् तद्भरतः सत्यविक्रमः राममासाद्यमुदितः पुनरेवाभ्यवादयत् तम् समुत्थाय काकुत्स्थश्चिरस्याक्षिपथम् गतम् अङ्के भरतमारोप्यमुदितः परिशस्वजे ततो लक्ष्मणमासाद्य वैदेहीम् च परम् तपः अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत् सुग्रीवङ्के कयी पुत्रो जाम्बवन्तमथाङ्गदम् मयिन्दम् च द्विविदम् नीलवृषभम् चैव सस्वजे सुषेणम् च नलम् चैव गवाक्षम् गन्धमादनम् शरभम् पनसम् चैव परितः परिषस्वजे ते कृत्वा मानुषम् रूपम् वानराः कामरूपिणः कुशलम् पर्यपृच्छंस्ते प्रहृष्टा भरतम् तदा अथा ब्रवीद्राजपुत्रः सुग्रीवम् वानरर्षभम् परिष्वज्य महातेजा भरतो धर्मिणाम् वरः त्वमस्माकम् चतुर्णाम् वै भ्राता सुग्रीवपञ्चमः महा, जायते मित्रमपकारो रिलक्षणम् विभीषणम् च भरतः सान्त्ववाक्यमचाब्रवीत् दिष्ट्या त्वया सहायेन कृतम् कर्म शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् सीतायाश्चरणौ वीरौ रामो मातरमासाद्य विवर्णाम् शोककर्षिता जग्राहप्रणतः प्रहर्षयन् अभिवाद्य च कैकेयीम् च यशस्विनीम् समातृश्च स्वागतंते ते महाबाहो कौसल्यानन्दवर्धना इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः व्याकोशानीव पद्मानि ददर्श भरताग्रजः पादुकेते तु रामस्य गृहीत्वा भरतः स्वयम् चरणाभ्याम् नरेन्द्रस्य योजयामास अब्रवीच्च तदा रामम् भरतः स एतत्ते सकलं राज्यं न्यासम् निर्यातितम् मया अद्य जन्म कृतार्थम् मे संवृत्तश्च मनोरथः यत्त्वाम् पश्यामि राजानमयोध्याम् पुनरागतम् अवेक्षतां भवान् कोशम् कोष्ठागारं गृहम् बलम् भवतस्तेजसा सर्वम् कृतम् दशगुणम् मया तथा ब्रुवाणम् भरतम् दृष्ट्वा तम् भ्रातृवत्सलम् मुमुचुर्वाण राबाष्पम् राक्षसश्च विभीषणः ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ययौ तेन विमानेन ससैन्यो भरताश्रमम् भरताश्रममासाद्य ससैन्यो राघवस्तदा अवतीर्य विमानाग्रादवतस्थे महीतले अब्रवीत्तु तदा रामस्तद्विमानमनुत्तमम् बहवै श्रवणम् देवमनुजानामि गम्यता ततो रामाभ्यनुज्ञातम् तद्विमानमनुत्तमम् उत्तराम् दिशमुद्दिश्य जगामधनदालयम् विमानम् पुष्पकम् दिव्यम् सङ्गृहीतम् तु रक्षसा अगमद्धनदम् वेगाद्रामवाक्यप्रचोदितम् पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः निपीड्य पादौ पृथगासनेषु भे सहैव तेनोपविवेश वीर्यवान् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशत्यधिकशततमः